ततः सबालो गोविन्दो नवनीतं तदाक्षये ग्रसमानस्तु तत्रायम् गोपीभिर्ददृशेऽथ वै दाम्नाथो लूखले कृष्णो गोपस्त्रीभिश्च बन्धितः तदाथ शिशुनाथेन राजस्तावर्जुनावु सूलबिटपौन तद्भुतवाभवत तर महाकाय ग्राण बभूवु ततस्तौ बाल्यौसकर्षणुु तस्मिन्नेव व्रजस्थाने सप्तवर्षौ बभूवतुः नीलपीताम्बरधरौ पीतश्वेतानुलेपनौ बभूवतुर्वत्सपालौ काकपक्षधरावुभौ पर्णवाद्यं श्रुतिसुखम् वादयन्तौ वराननौ शुशुभाते वनगता उदीर्णाविवपन्नगौ मयूराङ्गजकर्णौ तौ पल्लवापीडधारिणौ वनमाला परिक्षिप्तौ सालपोताविवोद्गतौ अरविन्दकृता रज्जु रज्जुयज्ञोपवीतिनौ शिक्यतुम्बधरौ वीरो गोप गोपवेणुप्रवादकौ क्वचिद्वसन्तावन्योन्यम् क्रीडमानौ क्वचिद्वने पर्णशय्यासु संसुप्तौ क्वचिन्निद्रान्तरैषिणौ तौ वत्सान् पालयन्तौ हि शोभयन्तौ महद्वनं चञ्चूर्यन्तौ रमन्तौ स्म राजन्नेवं तदाशुभौ ततो वृन्दावनं गत्वा वसुदेवसुतावुभौ गोव्रजं तत्र कौन्तेय चारयन्तौ विजह्रतुः भीष्म उवाच ततह कदाचिद् गोविन्दो ज्येष्ठं सङ्कर्षणं विना चचारतद्वनं रम्यं रम्यरूपो वराननः काकपक्षधरश्रीमाञ्छ्यामः पद्मनिभेक्षणः श्रीवत्सेनोरसा युक्तः शशाङ्क इव लक्ष्मण